हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे पञ्चसप्ततितमः लंकाया लङ्काया धनम् रक्षसाम् वानराणाञ्च घोरम् युद्धम् ततो ब्रवीन्ना तेज सुग्रीवो वानरेश्वरः अर्थ्यम् विज्ञापयन् चापि हनुमन्तमिदं वचः यतो हतः कुम्भकर्ण कुमाराश्च निचोदितः नेदानीमपनिर्धारम् रावणो दातुमर्हति ये ये महाबलाः सन्ति लघवैश्च प्लवङ्गमः लङ्कामभि पतन्त्वाशु गृह्योल्का ततो गदित्ये रौध्रे तस्मिन् निशामुखे लङ्कामभिमुखा शोल्का जग्मूर्ते प्लवगर्ष भूल्काहस्ते हरिगणैः सर्वतः समभिध्रुतः आरक्षस्था विरूपाक्ष स विप्रदुद्रुवुः गोपुराट्ट प्रतोलिषु चर्यासु विविधासु च प्रासादेषु च संवृष्टा ससरो जुस्ते हुताशनम् तेषां गृहसहस्राणि ददा हुतभुक्तदा प्रासादः पर्वताकारा पतन्ति धरणीतरे अगुरुर्दह्यते तत्र परं चैव सुचन्दनम् भौक्तिकामणयस्निग्धा वज्रं चापि प्रवालकम् क्षौमं च दह्यते तत्र कौशेयम् चापि चोभनम् आविकम् विविधम् चोर्णम् काञ्चनम् भाण्डमायुधम् नानाविकृतसंस्थानम् वाजीभाण्ड परिच्छदम् गजग्रीवेयकक्षा च रथभाण्डाञ्च संस्कृतान् धनोत्राणि सयोधानां हत्याैश्वानां च वर्म च खड्गाधनुं च जाबाणा तोमराङ्कुशक्तयः रोमजं वारजं चर्म व्याघ्रजं चाण्डजं बभू मुक्तामणि विचित्रां च स्वासादाश्च समन्ततः विविधानस्त्रसंघातान् अग्निदहति तत्र वै नानाविधान् गाचित्रान् ददा हे हुतभुक्तदा आवासान् राक्षसानां च सर्वेषां गृह गृध्नूनां हेमचित्रे तनोत्राणां शृग्भाण्डाम्बरधारिणां सीधूपानच राक्षाणाम् वल्विह्वलगामिनम् कान्तालम्बितवस्त्राणाम् शत्रु सञ्जातमन्युमान् गदाशूला सिहस्तानाम् खादताम् पिबतामपि शयनेषु महार्हेषु प्रसुप्तानाम् प्रियै सह त्रम् गच्छताम् तूर्णम् पुत्रानादाय सर्वतः तेषां शतसहस्राणि तदा लङ्का निवासिनान् अध तत्र जज्वाल च पुनः पुनः सारवन्ति मार्हाणि गम्भीर गुणवन्ति च हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च तत्र चित्र गवाक्षाणि साधिष्ठानानि सर्वशः मणिविद्रोहचित्राणि पृशन्ति दिवाकरं कं च बर्हिण वीणानां भूषणानां च निस्वरे नादितान्यच लाभानि वैष्मान्यग्नि जलनेन परितानि तोरणानि चकाशिरे विद्युद्भिरिव नद्धानि मेघजालानि घर्मघे गलनेन परितानि गृहाणि पृषकाशिरे दावाग्नि दीप्तानि यथा महगिरे विमानेषु प्रसुप्ताश्च दह्यमानावरङ्गना त्यक्ता भरणसंयोग हाय इत्युच्चै विचक्रषु तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि वज्रे वज्रहतानिव शिखराणि महागिरे तानि निर्दह्यमानानि दूरतः प्रचिकाशिरे हिमवशिखराणीव दह्यमानानि सर्वश हर्म्याघ्रे दह्यमाने च ज्वालप्रज्वलितैरपि रात्रो सा दृश्यते लंका पुष्पतरिव किंचुक हस्तध्यक्षे गजे मुक्त मुक्त चुना बलंका लोकांत भ्रातग्रह इणव अश्व मुक्त गजो दृष्ट क्वचि भीत सर्पति भीत भीत गज लंकाया दुशुभे च महोदरी छाया संसक्त सलीहि साभूव मुहूर्तेन हरिभर्दीता पुरी लोकस्ए घोरे प्रदीपते वसुंधरा नारी जन्स धूमेन त्यक्त उच्च विने दुष स्वनो ज्वलान् तप्तस्य शुच्रुवे शतयोजनम् प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः सहसा ह्युत्पतन्ति स्म हरियोथ युयुत्सवः उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् दिशोदश समुद्रं च पृथिवीं च विनादयत् विशल्यो च महात्मानौ तौ भौ रामलक्ष्मणौ असम्भ्रान्तो जगृहातु ते उभे धनुजीवरे ततो विस्फारयामास रामश्च धनुरुत्तमम् बभूवे तुमलशब्दो राक्षसानां भयावह अशोभत तदा रामो धनुर्विस्फारयन्महे भगवान्निवसंक्रुधो भवो वेदमयं धनुः उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् जयशब्दस्तौ भगो शब्दो अतिरामस्य शुश्रुवे वानरोद्घुष्टघोषश्च राक्षसानां च निःस्वनः जयशब्दश्चापि रामस्य त्रयं व्याप दिशो दश तस्य कार्मुकनिर्मुक्तै शरयतपुर गोपुरं कैलासश्रृङ्गप्रतिमम् विकीर्णम् अभवद् भुवि ततो रामः शरान् दृष्ट्वा विमानेषु गृहेषु च सन्नाहोरा शिवेन्द्राणां तुमल समपद्यते तेषां सन्नह्यमाराणाम् सिंहरादम् च कुर्वताम् शर्वरी राक्षसेन्द्राणाम् प्रौद्रैव समपद्यते आदिष्टा वा नरेन्द्रास्ते सुग्रीवेण महात्मन आसन्नम् द्वारमासाद्य युद्धम् च प्लवङ्गमः यश्च वीतथम् कुर्यात् तत्र तत्राप्युपस्थितः स हन्तव्योऽभि सम्प्लुत्य राजशासनदूषकः तेषु वानरमुख्येषु दिप्तोकोज्ज्वलपाणिषु स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविश तस्य जुम्भृतविक्षेपात् व्यामिश्रावेदि शोधश रूपवान्निवरुद्रस्य मन्युर्गात्रेष्व दृश्यते चै कुम्भं च हरिकुम्भं च कुम्भकर्णात्मजौ भौ प्रेषयामास संक्रुधो राक्षसै बहुभिः सह योपाक्ष क्षोणिताक्षंश्च पयङ्घकम्पनस्तथा निर्ययू कुम्भकर्णेभ्यां सह रावणशासनात् शतास चैव राक्षसान् स महाबलान् राक्षसा गच्छताद्यैव देव सिंहनादं च नादयन् ततस्तु चोदितास्तेन राक्षसा ज्वलिता युधा लङ्काय निरयु वीरः प्रणदन्त पुनः पुनः रक्षसां भूषणस्थाभिः भाभि साभिश्च सर्वशः चक्रुते सप्रभं व्योम हरये चार्णिभिस्सह तत्र ताराधिपत्या भाराणां तारा भा तथैव च तयोराभरणा भलिता जाम्भासयेत् चन्द्राभूषणा भ्रहाणां ज्वलितां च भा हरि राक्षस सैन्यानि मास सर्वतः तत्र चाधय प्रदीप्तानां गृहाणां सागरः पुनः भाभि संसक्त सलिले चलोर्भी शुशुभेधिकम् पताक ध्वज संयुक्तम् उत्तमासि परश्वर समातङ्गम् घोरविक्रम पौरुषम् ददृशे ज्वलितप्रासम् किङ्किणी शतनादितम् हेमजालाचितभुजम् व्यावेष्टित परश्व व्याघूर्णीतः महाशस्त्रम् बाणसंशक्तकार्मुकम् गन्धमाल्य मधुसेक सम्मोधित महानीरम् घोरं शूर जनाकिरणम् म्बूधर निःस्वर्णम् तद्दृष्ट्वा बलमायान्तम् राक्षसानां दुरासदम् सञ्चजाल प्लवङ्गानां बलमुदननाद च जवेनाप्लु चत्पुनः तद्बलं रक्षसां महत् अभ्ययात् प्रच्चरेवलं व्यमृष्ट परिघाषणी राक्षसानां बलं श्रेष्ठं भूय परमशोभत तत्रोन्मत्ता इवोत्पेतु हरिोथ युत्सवः तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् तथैव पततां तेषां फलीणां निशतैश्चरैः शिरांसि सहसा जु राक्षसा भीमविक्रमः दशरै हतकर्णाचे मुष्टिभिर्भिन्न शतकः शिलाप्रहार भग्नाङ्का विचेरु तत्र राक्षसा तथैवाप्य परे तेषां कपीनामसि भीषितैः प्रवर न भितो जग्नु घोररूपा निशाचरः घन्तमन्यं जघनान्य पातयन्तम् अपातयेत् गर्हमाणं जगर्हान्यो दशन्तम् अपरोदशयत् दैहित्यन्यो ददात्यन्यो ददामित्य पर पुनः किं क्लेश च तिष्ठेति तत्र न्यून्यम् बभशिरे विप्रलम्बितशस्त्रं च विमुक्ते कवचयुधम् मुद्यत महाप्राशम् मुष्टिशूला शिकुन्दलम् प्रवर्तत महारुद्रं युद्धं वानर राक्षसां वानरान् दश सप्ते राक्षसा जघनुराहवे राक्षसान् दश सप्तति वानरा चाभ्यपातयन् विप्रलम्बितवस्त्रं च कवच ध्वजं बलं राक्षसमालम्ब्य वानर पर्यवारयन् इत्याखी श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे पञ्चसप्ततितमः सर्गः श्रीसीता रामचन्द्रार्पणमस्तु